हरि ओम् श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे अष्टादशाधिकशतमः चितां विधूय श्री सीतामादाय मूर्तिमतोग्निदेवस्य प्रकटनम् सीतां श्रीरामाय समर्प्य तस्याः पवित्रताया प्रमाणीकरणं श्रीरामेण सी सहस्रं सीताया स्वीकरणं च एतत् श्रुत्वा शुभम् वाक्यम् पितामहः समीरितम् अङ्केनादाय वै वैदेहिं। उत्पपात विभावसु। विधूयाथ चितां तां तु वै हव्यवाहनः उत्तथो मूर्तिमानासु गृहीत्वा जनकात्मजाम् तरुणादित्य सङ्घासाम् तत्त रक्ताम्बरधराम्बालाम् नीलकुञ्जितमूर्धयाम् अक्लिष्टमाल्याभरणं तथारूपामनिन्दिताम् ततो रामाय वैदेहीम् अङ्के कृत्वा विभावसु बब्रवीतो तदा रामम् साक्षी लोकस्य पावकः एषा ते राम वैदेही पापम् अस्यां न विद्यते नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा सुवृत्तावृत्तशौटेर्यम् न त्वाम् अतीयचरच्छुभ रावणेनापतिपनीतैषा वीरोत्सिक्तेन रक्षस त्वया विरहितादीना विवशा निर्जने सति क्रुद्धा चान्तः पुरी गुप्ता तच्चित्ता रक्षिता रक्षसीभिश्च घोराभिर्घोरबुद्धिः प्रलोभ्यमाना विविधम् तर्जमाना च मैथिली न चिन्ता यत् तद्रक्ष तद्गते नान्तरात्मना विशुद्ध भावां निष्पापां प्रतिगृह्णीष्व मैथिलीं न किञ्चिदभिधातव्यः तदप्रीतमना रामः श्रुत्वैव वदतां पर दध्यो मूर्तं धर्मात्मा ह्य व्याकुलोचन एवम् महातेजा धृतिमान्नुर्विक्रमः उवाच त्रिदश श्रेष्ठम् रामो धर्मभृतां वर अवश्यं चापि लोकेषु सीता पावनमर्हति दीर्घकालुषिता हियम् रावणान्त पुरे शुभाय बालिशो बत कामात्मा रामो दशरथात्मजः इति वक्ष्यति मां लोको जानकीं सीतां मच्चित्त परिदक्षिणीम् अहमप्येव गच्छामि पि विशालाक्षिं रक्षितां स्वेन तेजसा रावणो नातिवर्तेत ते, वेलामेव महोदधि पत्यर्थं तु लोकानां त्रयाणां सत्यसंश्रयः उपेक्षे चापि वैदे प्रविशन्तीं हुताशनं न हि शक्तः सुदुष्टात्मा मनसापि प्रदर्शयितुम् अप्राप्याम् दीप्ताम् अग्ने शिखामिव नैयम् अर्हति वैक्लव्यम् रावणान् तत्पुरे सति अनन्या हि मया सीता भास्करस्य विशुद्धा त्रिषु विशु मैथिली जनकात्मया न विहातुम् मया शक्या कीर्तिरात्मवता यथा अवश्यं च मया कार्यं सर्वेषाम् स्निग्धानां लोकनाथानाम् एवं च वदतामिदम् इत्येवम् उक्त्वा विजयी महाबल प्रशस्य मान सुकृतेन कर्मणाय समेत्य राम प्रियमायश सुखम् सुखा हो न बहुवराघव इत्याशि मधुरामये वाल्मीके युद्धकाण्डे अष्टाधश अधिक शतसंसर्गी सीता